मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायम् एय्ट् क्रोधासुरशान्तिवर्णनम् श्रीगणेशाय नमः ब्रह्मोवाच लम्बोदर महादैत्यसमालोक्यरणं गतः जगादक्रोधसंयुक्तक्रोधसर्वविचारविद क्रोधासुर उवाचः लम्बोदरमहामूर्ख किमर्थं रणमागतः देवानां हिदमिच्छन् सन्मरिष्यसि च मे ग्रदः येन ब्रह्माण्डगम्पूर्णं जिदं देवादयः कृताः पशुतुल्यावने संस्था जेतुमिच्छसि तं मुधा मम क्रोधो दहेत् सर्वं त्रैलोक्यं सचराचरं तत्पुरः कथमायादसङ्ग्रामाय सुयन्त्रितः त्वया मदीयकं सैन्यं हदं पुत्रौ हदौ तथा अधुना शोकसंयुक्तो घनिष्यामि मदान्विदन् शरणं याहि मां नोचेन्मरिष्यसि गजानन उदरं स्फोटयिष्यामि बाणेनैकेन ते महद इत्यादिविविधैर्वाक्यैर्लम्बोदरं महासुरः भर्त्सयामा स तं देवो जगादमदसंयुधं लम्बोदर उवाच किं मां वदसि दैत्येन्द्रहनिष्यामि महाकलं त्वां धर्मस्य निकन्धारं स्वधर्मस्थापको ह्यहं सूर्यदत्ताद्वराद्दुष्टदुष्टकर्मरथो भवान् अधिपापैश्च तत्सर्वं निष्फलं ते बभूवः उत्पत्तिनाशयुक्तेभ्यो मरणं नैव ते भवेद नाहं जादो न ना दैत्येन्द्र मरिष्यामि कदाचन ब्रह्मभूतं च मां विद्धि सदा स्वानन्दवासिनं कथं जेष्यसि तं मनो वाणी विवर्जितं। लम्बोदरस्य वचनं श्रुत्वा तत्तस्य धीमदः उवाच विस्मितो भूत्वा तं पुनर्दैत्यनायकः क्रोधा सुर उवाच न जातोऽसि यदा ब्रह्मन् कथं देहधरोऽसि वै मनोवाणीविहीनश्चेत् कथं पश्यामि मां वद लंबोदर उच इदीय वांगे सिद्धिभ्रांतिस्वू्यथम सर्वोकाश भ्रमति भ्रांति संयुता दक्षिण स्वयं बुद्धि संस्थि भ्रातिधारिणी बुद्ध्या बुद्धियान भ्राति मानव चित्तरूपा स्वयं बुद्धिः पञ्चधा परिकीर्तिता पञ्चभ्रान्तिमयि सिद्धिस्तयोः पदिरसं किल नानाविश्वं महादैत्यनाब्रह्म नाना तथा सदा मदीयोदरगं विद्धितेन लम्बोदर स्मृतः ममोदरात् समुत्पन्नं मया सम्भालितं तथा अन्ते उदरगं कृत्वा क्रीडयामि निरन्तरम् अदो मां शरणं गच्छ जीवितुं यदि वाञ्छसि शुक्रो मां वेत्ति तेन नाकं दैत्यवधाकाङ्क्षी तथा देववधप्रियः स्वस्वधर्मयुधान् सर्वान् पालयामिन संशयः पाताले दैत्यपाः सर्वे नरा भूमौ सुरादिवि संस्थिताश्चेदकम् दैत्यस्वानन्दस्थो भवामि च देवा देवाक्रोधसमाविष्टा जघ्नोर्दैत्यान् विशेषदः पादालस्तांस्तदोऽहं वै दैत्येभ्यः सिद्धितो भवम् पुनस्तपो युदा दैत्या जित्वा देवान् महाबलान् कर्मखण्डनभावेन हन्तुमिच्छां प्रचक्रिरे तदाहम् देवसङ्खेभ्यः सिद्धिदादा भवम् पुरा तेन छिद्रज्ञपा देवा जघ्नुः सर्वाः सुरान्पुनः त्वया सर्वं जिदं दैत्य देवमूलनिकृन्तनः सर्वेन्द्रस्तेन भवसि त्वाम् निश्चितम् तस्य तद्वचनं रम्यं श्रुत्वा क्रोधासुरः पुनः विस्मितस्तं जगादैव हर्षनिर्भरमानसः क्रोधासुर उवाच नमामि त्वां गणाध्यक्ष सुरासुरमयं परम् अधुना भक्तिसंयुक्तं पालयस्व शरण्यद दर्शय स्वात्मरूपं मे सर्वसंशयनाशनं लम्बोदरार्थसंयुक्तं ब्रह्माकारं गजाननं लम्बोदरस्थस्य वाक्यं समाकर्ण्य सुहर्षितः भक्तियुक्तं मनस्तस्य ज्ञात्वा रूपमदर्शयद ज्ञान ज्ञानचक्षुश्च संदत्तं तेन दैत्यायतं पुनः लम्बोदरं महाक्रोधो पश्यत् परमविस्मिदः ब्रह्मेशं प्रणनामाधसरोमाञ्जो महासुरः लम्बोदरः पुनस्तत्र पूर्वरूपो बभूवः तत्र क्रोधा वैपुजयन् भक्तिसंयुधः नत्वा तुष्टावसंहृष्टः साश्रु नेत्रः प्रदापवान् क्रोधा नमस्तुभ्यं उवाच लम्बोदरनमस्तुभ्यं शान्तियोगस्वरूपिणे सर्वशान्तिप्रदात्रे ते विघ्नेशाय नमो नमः असम्प्रज्ञादरूपोऽयं शुण्ठातेनात्र संशयः सम्प्रज्ञादमयो देहो देहधारिन्नमो नमः स्वानन्दे योगिभिर्नित्यं दृष्ठस्त्वं ब्रह्मनायकः तेन स्वानन्दवासि त्वं नमः समुत्पन्नम् त्वदुदरा जगन्नानाविधं प्रभो ब्रह्म तद्वन्नसन्देहो लम्बोदर नमोऽस्तु दे त्वदीयकृपया देवमया ज्ञातं महोदर त्वत्तः परतरं नास्ति परेशाय नमो नमः हेरम्बाय नमस्तुभ्यं विघ्नहर्त्रे कृपालवे आदिमध्यान्तहीनाय तन्मयया नमो नमः पदे नमः सिद्धिबुद्धिप्रदात्रे ते वक्रतुण्डाय वै नमः सर्वात्मकाय सर्वादिपूज्याय ते नमो नमः सर्वपूज्याय वै तुभ्यं भक्त संरक्षकाय च अधः प्रसीदविघ्नेशधासोहं ते गजानन लम्बोदराय नित्यं नमो नमस्ते महात्मने स्वद परद उद्धने ब्रह्म धारयन् तवोदरात् समुत्पन्नं तं किं स्तौमि परात्परम् यदि स्तुत्वा महादैत्यप्रणनामगजाननं तमुवाचगणाध्यक्षो भक्तं भक्तजनप्रियः लम्बोदर उवाच वरं वृणुमहाभागक्रोधासुरहृदीप्सितं दास्यामि भक्तिभावेन स्तोत्रेणाहं हि तोषिदः त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेद यः पठिष्यति तस्यैव क्रोधजं न भयं भवेद शृणुया तस्य तद्वच्च भविष्यति न संशयः यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्र पाठतः क्रोधासुर उवाच यदि लम्बो दरत्वं मे प्रसन्नो वरदोऽसि भोः तदा त्वत्पादपद्मे जभक्तिं देहि दृढां प्रभो आज्ञां कुरु महाभागसेवार्थं तां करोम्यहं स्थानं वृत्तिं च मे देहि देह पोषणकारिणीं ब्रह्मोवाच ्रोधासुरस्य वाक्यं तच्छ्रुत्वा कर्षसमन्विदः लम्बोदरस्थं जगादश पुनर्दैत्यनायकं लम्बोदर उवाच मदीया सुदृढा भक्तिप्रभविष्यति तेन वसत्वं भयहीनश्च स्थाने ते नात्र यत्रारम्भे महादैत्यमदीयं स्मरणं नहि तत्र त्वं दैत्यभावेन गुरुराज्यं महामदे तदीयपुण्यजं सर्वं भुङ्क्ष्व नित्यं सुकर्मचं ज्ञानादिसकलं सकलं नात्र संशयः मद्भक्ता ये महा दैत्यतां रक्षस्व यथा सुखं गाणपत्यप्रियस्त्वं वै भविष्यसि न संशयः एवमुक्तो महा दैत्यक्रोधपरमहर्षिदः लम्बोदरं प्रणम्यैव ययौ स्वस्थानमुत्तमं दैत्या राहुमुखाः सर्वे तं त्यक्त्वा भयसंयुताः पातालं विविशुर्विप्रौ वी शुक्रसंहर्षितो भवद एवं क्रोधासुरं शान्तं चकारगणनायकः क्रोधो गणेशभक्तिं वै कुर्वन् सन् संस्थितो भवद ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्म उद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते क्रोधासुरशान्तिवर्णनं नामाष्टमोऽध्यायः ओ